ो अथ कृष्णयजुर्वेदे क्रमपाठे प्रथमकाण्डे पञ्चमः प्रश्नः प्रारम्भः ओ देवासुराः संयत्ताः देवासुरा इति देवासुराः संयत्ता आसन् संयत्ता इति संहिताः आसन् ते ते देवाः देवाविजयम् विजयम् अयन्तः विजयमिति विजयम् उपयन्तोग्नौ उपयन्त इत्युपायन्तः अग्नौ वामम् वामम् वसु वसुसम् सन्नि न्यदधत अदधतेदम् इदमुनः नो भविष्यति यदि यदि नः नो जेष्यन्ति जेष्यन्तीति इति तत् तदग्निः तेनाप अपाक्रामत् अक्रामत्तत् तद्देवाः देवा विजित्य विजित्यवरुत्समानाः विजित्येति विजित्य अवरुरुत्समाना अनु अवरुत्समाना इत्यवरुत्समानाः अन्वायन् आयन्तत् तदस्य अस्य सहसा सहसा आदित्सन्त अदित्सन्तसः सो रोधीत् अरोधीद्यत् यदरोदीत् अरोधी रुद्रस्य रुद्रस्य रुद्रत्वम् रुद्रत्वम् यत् रुद्रत्वमिति रुद्रात्वम् यदश्रु अश्वशीयत अशीयत तत् तद्रजतम् रजतगुम् हिरण्यम् हिरण्यमहोर् अभवत्तस्मात् तस्माद्रजतम् रजतगुम् हिरण्यम् हिरण्यमदक्षिण्यम् अलक्षिण्यमश्रुजम् अश्रुजगम् हि अश्रुजमित्यश्रुजम् अश्रु हि यः यो बर्हिषि बर्हिषि ददाति ददाति पुरा पुरास्य अस्य संवत्सरात् संवत्सराद्गृहे संवत्सरादिति संवत्सरात् गृहे रुदन्ति रुदन्ति तस्मात् तस्मात् बर्हिषि बर्हिषि न देयम् देयपुंसः अग्निरब्रवीत् अब्रवीद्भागी भाग्यसानि असान्यथा अथवः व इदम् इदमिति इति पुनराधेयम् पुनराधेयम् पुनराधेयमिति पुनः आधेयम् ते केवलम् केवलमिति इत्यब्रुवन् अब्रुवन् रुद्धवत् ऋद्धवत् खलु खलु सः स यो मद्देवत्यम् मद्देवत्यमग्निम् मद्देवत्यमिति मद्देवत्यम् अग्निमादधातै आदधाता इति इत्या, आदधाता इत्यादधातै इति तम् तम् पूषा पूषाधत्ता आधत्त अधत्ततेन तेन पूषा पूषार्धोत् आर्धनोत्तस्मात् तस्मात् तस्मा पौष्णाः ओष्णाः प्रसवः पशव उच्यन्ते उच्यन्ते तम् तन्तुष्टा त्वष्टा आधत्ता अधत्ततेन तेन त्वष्टा त्वष्टाध्नोत् आध्नोत्तस्मात् तस्मात्त्वाष्ट्राः त्वाष्ट्राः पशवः पशव उच्यन्ते उच्यन्ते तम् तम् मनुः मनुरा आधत्त अधत्ततेन तेन मनुः मनुराध्नोत् आर्ध्वोत्तस्मात् तस्मान् मानव्यः मानव्यः प्रजाः प्रजा प्रजा इति प्राजाः उच्यन्ते तम् तम् धाता धाता आधत्ता धत्ततेन तेन धाता धातार्धनोर् आर्ध्वोत्संवत्सरः संवत्सरो संवत्सर इति संवत्सरः वै धाता धाता तस्मात् तस्मात्संवत्सरम् संवत्सरम् प्रजाः संवत्सरमिति संवत्सरम् प्रजाः पशवः प्रजा इति प्राजाः पशवो न प्रजायन्ते जायन्ते यः यदेवम् एवम् गुणराधेयस्य गुणराधेयस्यर्धिम् पुनराधेयस्येति पुनः आधेयस्य ऋद्धिम् वेद वेदर्थ्नोति रुध्नात्येव एव यः योऽस्य अस्यैवम् एवम् बन्धुताम् बन्धुताम् वेद वेदबन्धुमान् बन्धुमान् भवति बन्धुमानिति बन्धुमान् भवति भागधेयम् भागधेयम् वै भागधेयमिति भागधेयम् वा अग्निः अग्निराहितः आहित इच्छमानः आहित इत्याहितः इच्छमानः प्रजाम् प्रजाम् पशून् यजमानस्य यजमानस्योप उपदोद्रावोद्रावोद्वास्य उद्वास्य पुनः उद्वास्येत्युद्वास्य पुनरा आदधीतदधीतभागधेयेन भागधेयेनैव भागधेयेनेतिभागाधेयेन एवैनम् येन पुंसाम् समर्थयति अथो शान्तिः अथो इत्यथो शान्तिरेव एवास्य अस्यैषा एषा पुनर्वस्वोः पुनर्वस्वोरा पुनर्वस्वोरिति पुनः वस्वोः आदधीता दधीतैतत् एतद्वै मयि पुनराधेयस्य पुनराधेयस्य नक्षत्रम् पुनराधेयस्येति पुनः आधेयस्य नक्षत्रम् यत् यत्पुनर्वसू पुनर्वसू स्वायाम् पुनर्वसू इति पुनः वसूः स्वायामेव स्वाया एवैनम् एनम् देवतायाम् देवतायामाधाय आधाय ब्रह्मवर्चसी आधायेत्याय ब्रह्मवर्चसी भवति ब्रह्म वर्चसीति ब्रह्म वर्चसी भवति दर्भैः दर्भैरा आदधाति दधात्ययातयामत्वाय अयातयामत्वाय दर्भैः अयातयामत्वायेत्यानयाम त्वाय दर्भैरा आदधाति दधात्यद्भ्यः अद्भ्य एव अद्भ्यैत्यतेभ्यः एवैनम् एनमोषधीभ्यः ओषधीभ्यो वरुध्य ओषधीभ्य इत्योषधीभ्यः अवरुद्ध्या अवरुध्येत्यवरुद्ध्या आधत्ते धत्ते पञ्चकपालः पञ्चकपालः पुरोडाशः पञ्चकपाल इति पञ्चवै वा ऋतवः ऋतव ऋतुभ्यः ऋतुभ्य एव ऋतुभ्य अवरुध्येत्यवरुद्ध्य आधत्ते धत्त इति धत्ते परा वै वा एषः एष योऽग्निम् अग्निमुद्वासयते उद्वासयते पञ्चकपालः उद्वासयत इत्युत् वासयते पञ्चकपालः पुरोडाशः भवति पाङ्क्तः पाङ्क्तो यज्ञः यज्ञः पाङ्ताः पाङ्ताः पशवो यज्ञम् यज्ञमेव एव पशून् पशून वा वीरः वीरः वै वीरहेतिवीराः वा एषः एष योऽग्निम् अग्निमुद्ध्वासेते उद्ध्वासेतेन उद्वासेत इत्युत् वासेते न वै वा एतस्य एतस्य ब्राह्मणाः ब्राह्मणा कृतायवः पुरा ऋतायव इत्युतायवः पुरान्नम् अन्नमक्षन् अक्षन्पङ्क्त्यः पङ्क्त्यो याज्यानुवाक्याः याज्यानुवाक्या इति याज्या अनुवाक्याः भवन्ति पान्तः पान्तो यज्ञः यज्ञः पान्तः पान्तः पुरुषः पुरुषो देवान् देवानेव एव वीरम् वीरम् निरवदाय निरवदायाग्निम् निरवदायेतिमिहि अवदाय अग्निम् पुनः पुनरा आधत्ते धत्ते शताक्षराः शताक्षरा भवन्ति शताक्षरा इति शता अक्षराः भवन्ति शतायुः शतायुः पुरुषः शतायुरिति शता आयुः पुरुषः शतेन्द्रियः शतेन्द्रिय आयुषि शतेन्द्रिय इति शता इन्द्रियः आयुष्येव देवेन्द्रिये इन्द्रिये प्रति प्रतिष्ठति तिष्ठति यद्वै वा अग्निः अग्निराहितः आहितो आहित इत्याहितः नध्यते तृध्यते ज्यायः ज्यायो भागधेयम् भागधेयम् निकामयमानः भागधेयमिति भागधेयम् निकामयमानो यत् निकामयमान इति यदा आग्मेयम् आग्मेयकम् सर्वम् सर्वम् भवति भवति एवास्य अस्यः ऋद्धिः सन् वा एतस्य एतस्य गृहे गृहे वाक् वाक्सृज्यते सृज्यते यः योग्निम् अग्निमुद्वासयते उद्वासयते सः उद्वासयत इत्युत् सवाचम् वाचकम् सर्वम् सृष्टाम् सर्वम् सृष्टाम् यजमानः सर्वम् सृष्टामिति संसृष्टाम् यजमान ईश्वरः ईश्वरो न अनुपराभवितोः परा भवितोर्विभक्तयः परा भवितोरिति परा भवितोः विभक्तयो भवन्ति विभक्तय इति विभक्तयः भवन्ति वाचः वाचो विधृत्यै यजमानस्य विधृत्य अपराभावाय विभक्तिम् अपराभावायेत्यपराभावाय विभक्तिम् करोति विभक्तिमिति विभक्तिम् करोति ब्रह्म ब्रह्मैव एवतत् तदकः अकरुपागुंशु उपागुंशु यजति उपाविष्वित्युपागुंशु यजति यथा यथा वामम् वामम् वसु वसु विविधानः विविधानो गूहति गूहति तादृक् तादृगेव एव तत् तदग्निम् अग्निम् प्रति प्रतिस्विष्टकृतम् सृष्टकृतम् निः सृष्टकृतमिति सृष्टा कृतम् गिराः आह यथाः यथा वामम् वामम् वसु वसु विविधानः विविधानः प्रकाशम् प्रकाशम् जिगमिषति प्रकाशमिति प्राकाशम् जिगमिषति तादृक् तादृगेव एव तत् तद्विभक्तिम् विभक्तिमुक्त्वा विभक्तिमिति विभक्तिम् उक्त्वा प्रयाजेन प्रयाजेन वषट् प्रयाजेनेति प्रायाजेन वषट् करोति प्ररोत्यायतनात् आयतनादेव आयतनादित्यायतनात् एव न वयति एति यजमानः यजमानो वै वयि पुरोडाशः पुरोडाशः पशवः पशव एते एते आहुति एते इत्येते आहुति आहुति इत, इत, इत्याहुति यदभितः अभितः पुरोडाशम् पुरोडाशमेते एते आहुति एते इत्येते आहुति जुहोति आहुति इत्याहुति जुहोति यजमानम् यजमानमेव एवोभयतः उभयतः पशुभिः पशुभिः परि पशुभिरिति पशुभिः परिगृह्णाति गृह्णाति कृतयजुः कृतयजः संहृतसंहारः कृतयजुरिति कृता यजुः संहृतसंभार इति संहृतसंभार इति संहृता संभारः इत्याहोः आहृर्न संहृत्याः संहृत्या संभाराः संभृत्या इति संहृत्याः सम्भारा न इति सम्भाराः न यजोः यजुःकर्तव्यम् कर्तव्यमिति इत्यथोः अथो खलु अथो इत्यथो खलु संभृत्याः संहृत्या एव संभृत्या इति संहृत्या एव संभाराः संभाराः कर्तव्यम् संभारा इति संभाराः कर्तव्यम् यजुः यजुर्यज्ञस्य यज्ञस्य समृद्ध्यै समृद्ध्यै पुनर्निष्कृतः समृद्ध्या इति समृद्ध्यै पुनर्निष्कृतो रथः पुनर्निष्कृत इति पुनः निष्कृतः तथो दक्षिणा दक्षिणा पुनरुत्स्यूतम् पुनर पुनर पुनरुत्स्यूतम् वासः पुनरुत्स्यूतमिति पुनः वासः पुनरुत्सृष्टः पुनरुत्सृष्टो नढ्वान् पुनरुत्सृष्ट इति पुनः उत्सृष्टः अनढ्वान् पुनराधेयस्य पुनराधेयस्य समृद्धि पुनराधेयस्येति पुनः आधेयस्य समृद्धि सप्त समृद्ध्या इति ते अग्नेः अग्ने समिधः समिधः सप्त समिध इति सम्मिधः सप्तजिह्वाः इति इत्यग्निहोत्रम् अग्निहोत्रम् जुहोति अग्निहोत्रमित्यग्निहोत्रम् जुहोति यत्र यत्र यत्र यत्रैव यत्र यत्रेति यत्र यत्र एवास्य ततः न्यक्तमिति नि अक्तम् तत <laughs> एवैनम् एनमव अवरुन्धे रुन्धे वीरः वीरः वै वीरहेति वी वी वा एषः एष देवानाम् देवानाम् यः योऽग्निम् उद्वासयते उद्वास तस्य उद्वासयत इत्युतवासयथे तस्य वरुणः वरुण एवम् प्रणयादाग्निवारुणम् प्रणयादित्यणयात् आग्निवारुणमेकादशकपालम् आग्निवारुणमित्याग्निवारुणम् एकादशकपालमनु एकादशकपालमित्येकादशकपालम् एकाद अह्निः निर्वपेद् अपेद्यम् इञ्च चैव एव हन्ति हन्ति यः यश्च चास्य अस्य नयात् प्रणयात्तौ प्रणयादित्य तौ भागधेयेन भागधेयेन प्रीणाति भागधेयेनेति भागाधेयेन प्रीणाति ना, न आर्तिम् आर्तिमा आर्च्छति पृच्छति यजमानः यजमान इति यजमानः भौमिर्भोम्ना भोम्ना द्योः द्योर्वरिणा वरिणान्तरिक्षम् अन्तरिक्षम् महित्वा महित्वेति महीत्वा उपस्थेते उपस्थ इत्युपास्थे ते देवि देव्यरिते अरितेग्निम् अग्निमन्नादम् अन्नादमन्नाद्याय अन्नादमित्यन्ना आदधे दध इति दधे आयम् अयङ्गौः गौः प्रश्निः अक्रमीदसमत् वसनन्मातरम् मातरम् पुनः पुनरिति पुनः इतरम् च प्रयन् प्रयन्सुवः प्रयन्निति प्रायन् सुभरिति सुवः त्रिपुंशद्धाम धामवि विराजति राजति वाग् वाक्पतङ्गाय पतङ्गाय शिश्रिये शिश्रिय इति शिश्रिये प्रत्यस्य अस्य वः वहद्युभिः ुभिर्यद्योभिः अस्य प्राणात् प्राणादपानति प्राणादिति प्रा अनात् अपानत्यन्तः अपानतीत्यपा अनति अन्तश्चरति चरति रोचना रोचनेति रोचना व्यक्ष्यत् अख्यम् महिषः महिषः सुवः सुवरिति सुवः यत्त्वा क्रुद्धः क्रुद्धः परोवपरोवपमन्युना रोपपेति परा उवप मन्युनायत् यदवर्त्या अवर्तेत्यवर्त्या स्वकल्पमग्ने सुकल्पमिति सोकल्पम् अग्ने तत्तव तव पुनः पुनस्वा त्वत् उद्दीपयामसि दीपयामसीति दीपयामसि दी दी यत्ते ते मन्युपरोक्तस्य मन्युपरोक्तस्य मन्युपरोक पृथिवीम् मन्यपरोक्तस्येति मन्योपरोक्तस्य पृथिवीमनो अनुदध्वसे दध्वस इति दध्वसे आदित्या विश्वेः देवावसवः वसवश्च समाभरन् समाभरन्निति सम् आभरन् मनो ज्योतिः ज्योतिर्जुषताम् जुषतामाज्यम् आज्यम् विच्छिन्नमिति विच्छिन्नम् यज्ञपुंसम् समिमम् इमम् दधातु दधात्विति दधातु बृहस्पतिस्तनुताम् तनुतामिमम् इमन्नः नो विश्वे विश्वे देवाः देवा इह इह मादयन्तामिति मादयन्ताम् सप्तते ते अग्ने अग्ने समिधः समिध इति सम् इधः सप्त सप्त सप्त ऋषयः ऋषयः सप्तधाम धाम प्रियाणि प्रियाणीति प्रियाणि होत्राः सप्तधा सप्तधा सप्तधेति सप्त धा यजन्ति यजन्ति सप्तयोनीः यो नीरा प्रणस्वा घृतेन घृतेनेति घृतेन पुनरोर्जा ऊर्जानि निवर्तस्व वर्तस्व पुनः पुनरग्ने अग्नयिषा इषायुषा आयुषेऽत्र्यायुषा पुनर्नः नः पाहि विश्वतः विश्वत विश्वतः सः रै्या निवर्तस्व वर्तस्वाग्नेः अग्नेपिन्वस्व विन्वस्वधारया धारयेति धारया विश्वप विश्वप्स्न्या विश्वतः विश्वप्स्न्येति विश्वाप्स्न्याः विश्वतस्परि परीतिपरि लेखः सलेखः सलेखः सुलेखः सलेख इति सा लेखः तेनः नादित्याः आदित्या आज्यम् आज्यम् जु जुषाणाः जुषाणा इयन्तुकेतः केतः सकेतः सकेतः सुकेतः सकेत इति साकेतः सुकेतस्ते सुकेत इति सुकेतः तेनः नादित्याः आदित्या आज्यम् आज्यम् जुषाणाः जुषाणा वियन्दो वियन्तु विवस्वान् इवस्वागुम् अदितिः अदितिर्देवज्योतिः देवज्योतिस्ते देवज्योतिरिति देवज्योतिः ेन आदित्याः आदित्या आज्यम् आदित्या आज्यम् जुषाणाः त्रिषाणा वियन्तो वियन्तियन्दो भूमिर्भोम्ना भोम्नाद्योः द्यौर्वरिणा वरिणेति इत्याह ताःशिषा आशिषैव आशिषेत्याशिषा एवैनम् एनमा आ धत्ते धत्ते सर्पाः सर्पा वै वै जीर्यन्तः जीर्यन्तो मन्यन्त न मन्यन्तसः स एतम् एतङ्कसर्णीरः असर्णीरः काद्रवेयः काद्रवेयो मन्त्रम् मन्त्रमपश्यत् अपश्यत्ततः ततो वै वै ते ते जीर्णास्तनोः तनोरप अपाघ्नत अघ्नतसर्पराज्ञ्याः सर्पराज्ञिया ऋग्भिः सर्पराज्ञया इति सर्पराज्ञ्याः ऋग्भिर्गार्हवत्यम् ऋग्भिरित्यृग्भिः गार्हपत्यमा गार्हवत्यमिति गार्हभत्यम् आदधाति पुनर्नवम् पुनर्नवमेव पुनर्नवमिति नवम् एवैनम् एनमजरम् अजरम् कृत्वा कृत्वा धत्ते आधत्ते धत्तेथो अथोभूतम् अथो इत्यथो भूतमेव एव पृथिवीम् पृथिवीमन्नाद्यम् अन्नाद्यन्न अन्नाद्यमित्यन्नाद्यम् नोप उपानवत् अनवत्सा सैतम् एतम् मन्त्रम् मन्त्रमपश्यत् अपश्यत्ततः ततो वै वै ताम् तामन्नाद्यम् अन्नाद्यमित्यन्न अद्यम् उपानवत् अनामद्यत् यत्सर्पराज्ञ्याः सर्पराज्ञ्या ग्भिः सर्पराज्ञ्या इति सर्पराज्ञ्याः रग्भिर्गार्हवत्यम् रग्भिरित्यगभिः गार्हवत्यमादधाति गार्हवत्यमिति गार्हः पत्यम् आदधात्यन्नाद्यस्य आदधातीत्यादधाति अन्नाद्यस्यावरुद्धि अन्नाद्यस्येत्यन्ना अद्यस्य अवरुद्ध्या अथो अपवृद्ध्या इत्यपरुद्ध्यै अथो अस्याम् अथो इत्यथो अस्यामेव एवैनम् एनम् प्रतिष्ठितम् प्रतिष्ठितमा आधत्ते धत्ते यत् यत्त्वा क्रुद्धः क्रुद्धः परो परोपेति परा उप इत्याह आहाप अपह्नते धत एव एवास्मै अस्मै तत् तत्पुनः पुनस्त्वा त्वोत् उद्दीपयामसि दीपयामसीति दी दी इत्याह आहसम् समिन्धे इन्ध एव एवैनम् एनैयत् यत्ते एवमण्युपरोक्तस्य मण्युपरोक्तस्येति मन्युपरोक्तस्येति मन्योपरोक्तस्य इत्याह आह देवताभिः देवताभिरेव एवैनम् येन पुंसम् सम्भरति विवै वा एतस्य यज्ञः यज्ञच्छिद्यते छिद्यते यः योऽग्निम् अग्निमुद्वासयते उद्वासयते उद्वासयत इत्युत वासयते बृहस्पतिवत्यर्चा बृहस्पतिवर्त्येति बृहस्पतिवत्या रुचोप उपतिष्ठते तिष्ठते ब्रह्म ब्रह्म वै वै देवानाम् देवानाम् बृहस्पतिः बृहस्पतिर्ब्रह्मणा ब्रह्मणैव एव यज्ञम् यज्ञपुंसम् सन्दधाति दधाति विच्छिन्नम् विच्छिन्नम् यज्ञम् विच्छिन्नमिति यज्ञपुंसम् समिमम् इमम् दधातु दधात्विति नित्याह आहसन्तत्यै सन्तत्यै विश्वे सन्तत्या इति सन्तत्यै विश्वे देवाः देवा इह इह मादयन्ताम् मादयन्तामिति इत्याह आह सन्तत्य सन्तत्यैव सन्तत्येति सन्तत्य एव यज्ञम् यज्ञम् देवेभ्यः ेवेभ्यो नो अनुदिशति दिशति सप्त सप्तते अग्नेः अग्ने समिधः समिधः सप्त समिध इति समिधः सप्त जिह्वाः जिह्वा इति इत्याह सप्त सप्त सप्त सप्त वै सप्त सप्तेति सप्ता सप्ता वै सप्तधा सप्तधा अग्नेः सप्तधेति सप्ताधा तनुवस्ताः ता एव एबा, एवाव अवरुन्धे रुन्धे पुनः पुनरूर्जा ऊर्जा सह रय्येति इत्यभितः अभितः पुरोडाशम् पुरोडाशमाहुति आहुति जुहोति आहुति इत्याहुति जुहोति यजमानम् यजमानमेव एवोर्जा ऊर्जा च च रय्या रय्या चोभयतः उभयतः परि परिगृह्णाति गृह्णात्यादित्याः आदित्या वा अस्मात् तस्माल्लोकात् लोकादमुम् अमुल्लोकम् लोकमायन् लोका आयन्ते ते, ते मुष्मिन् अमुष्मिन्लोके लोके वि व्यदृश्यन् अदृश्यन्ते त इमम् इमल्लोकम् पुनः पुनरभ्यवेत्य <Zangyakua> अभ्यवेत्याग्निम् अभ्यवेत्येत्यभि अवेत्य अग्निमाधाय आधायैतान् आधायेत्याय एतान् होमान् होमानजुहवुः अजुहवुस्ते ताध्वमन् आध्वन्ते आद्धुन, ते सुवर्गम् सुवर्गम् सुवर्गं लोकम् स्वर्गमिति सुवहागम् लोकमायन् आयनयः आयन यः प्राचीनम् प्राचीनम् पुनराधेयात् पुनराधेयादग्निम् पुनराधेयादिति पुनः आधेयात् अग्निमादधीत आदधीतसः आदधीतेत्यादधीत स एतान् एतान् होमान् होमाञ्जुहुयात् जुहुयाद्याम् यामेव एवादित्याः आदित्यार्थिम् वृद्धिमार्ध्वन् आर्ध्वन्ता तामेव ये वर्ध्नोति वृद्ध्नोति वृध्नोति उपप्रयन्तो अध्वरम् उपप्रयन्त इत्युपप्रयन्तः अध्वरम् मन्त्रम् मन्त्रम् वोचेम वोचेमाग्नये अग्नय इत्यग्नये आरेऽस्मे अस्मे च अस्मे इत्यस्मे च शृण्वते शृण्वत इति शृण्वते अस्य प्रत्नाम् प्रत्नामनु अनुद्युतम् द्युतकुम् शुक्रम् शुक्रम् दुदुह्रे दुदुह्रे अह्रयः अह्रय इत्यह्रयः पयः सहस्रसाम् सहस्रसामृषिम् सहस्रसामिति सहस्रसाम् ऋषिमितृषिम् अग्निर्मूर्धा मूर्धा दिवः दिवः कृ प्रगुद्पतिः पतिः्याः पृथिव्या अयम् अयमित्ययम् अपागुं रेतागुंसि प्रेतागुंसि जिन्वति जिन्वतीति जिन्वति अयमिह इह प्रथमः प्रथमो धायि धायि धातृभिः धातृभिर्होताः धातृभिरिति धातृभिः यजिष्ठो अध्वरेषु अध्वरेष्वीभ्यः ईड्य इति अप्नवानो भृगवः भृगवो विरुरुचुः विरुरुचिर्वनेषु विरुरुचिरिति विरुरुचुः वनेषु चित्रम् चित्रम् विभुवम् विभुवम् विशे विषे विभुवमिति विभुवम् विशे विष इति विशे विशे उभा वाम् वामिन्द्राग्नी उभा उभाराधसः राधसः सः सामादयध्यै मादयध्या इति मादयध्यै उभादातारौ दाताराविषाम् इशाकुम्रयीणाम् गीना, ऋणामुभा उभावाजस्य वाजस्य सातये सातये हुवे हुवे वाम् वामिति वाम् अयन्दे ते योनिः योनिर्नृत्वियः ऋत्वियो यतः यतो जातः जातो अरो रथाः अरोचथा इत्यरोचथाः तञ्जानन् जानन्नग्ने अग्ना आरोह रोहाथ अधानः गोवर्धया वर्धया रयिम् रयिमिति रयिम् अग्ना योगुंषि आयोगुंषिपवसे पवसा आसुव स्वोर्जम् ओर्जमिषम् इषम् च शमः नैरिनः आरे बाधस्व बाधस्वदुच्छुनाम् दुच्छुनामिति दुच्छुनाम् अग्ने पवस्व पवस्व स्वभा स्वपा अस्मे स्वभा इति अपाः अस्मे वर्चः अस्मे इत्यस्मे वर्चः सुवीर्यम् सुवीर्यमिति सो वीर्यम् अधः पोषणम् पोषणम् हयिम् अग्ने पावक पावकरोचिषा रोचिषा मन्द्रया देव देवजिह्वया जिह्वयेति जिह्वया आदेवान् देवानवक्षि वक्षियक्षि यक्षि च चेति च स नः नः अग्ने देवान् देवागुम् इह इहा आवह वहेदिवः उपयज्ञम् यज्ञगुम् हविः कविश्च शनः नैदिनः अग्निःश्रुचिंव्रततमः शुचिंव्रततमश्रुचिः शुचिंव्रततमैतिशुचिंव्रततमः शुचिर्विप्रः विप्रश्रुचिः शुचिः कविः कविरिति कविः शुचि रोचते रोचताहुतः आहुत इत्याहुतः उदग्ने अग्ने शुचयः शुचयस्तव तव शुक्राः शुक्राभ्राजन्तः भ्राजन्तैरते ईरत इतीरते तव ज्योतिगुंषि ज्योतिर्विष्यर्चयः अर्चय इत्यर्चयः आयुर्दाग्ने आयुर्दा इत्यायुहोदाः <दोगाँ> अग्नेसि अस्यायुः आयुर्मे मेदेहि देहि वर्चोदाः वर्चोदाग्ने वर्चोदा इति दा, वर्चः दाः अग्नेऽसि अस्य वर्चोमे मेदेहि देहितनूपाः तनूपा अग्ने तनोपा इति तनोपाः अग्नेऽसि असि तनुवम् तनुवम् मे मे पाहि पाह्यग्ने अग्नेयत् यन्मे मे तन्मे मा आवृण प्रणचित्रावसो चित्रावसो स्वस्ति चित्रावसो इति चित्रावसो स्वस्तिते ते पारम् पारमशीया अशीयेन्धानाः इन्धानास्त्वा त्वाशतम् शतकम् हिमानाः हिमाद्युमन्तः द्युमन्तः सम् द्युमन्त इति द्युमन्तः समि धीमहि धीमहि वयस्वन्तः वयस्वन्तो वयस्कृतम् वयस्कृतम् यशस्वन्तः वयस्कृतमिति वयः कृतम् यशस्वन्तो यशस्कृतम् यशस्कृतकम् सुवीरासः यशस्कृतमिति यशः कृतम् सुवीरासो अदाभ्यम् सुवीरास वीरासः अदाभ्यमित्यदाभ्यम् अग्ने सपद्मदम्भनम् सपद्मदम्भनम् वरिषिष्ठे सपद्मदम्भनमिति सपद्मादम्भनम् वरिष्ठे अधि अधिनाके नाकैति नाके सम् अग्ने सूर्यस्य सूर्यस्य वर्चसा वर्चसा गथाः अगथाः सम् सं, समृषीणाम् ऋषीणागस्तुतेन स्तुतेन सम् सं, सम्प्रियेण प्रियेण धाम्ना धाम्नेतिधाम्ना त्वमग्ने अग्ने सूर्यवर्चा इति सूर्य वर्चाः हसि सम् सम् माम् आयुषा वर्चसा वर्चसा प्रजया प्रजया सृजा प्रजयेदि प्राजया सृजेति सृजा सम्पश्यामि पश्यामि प्रजाः प्रजा अहम् प्रजा, प्रजा इति प्राजाः अहमिडप्रजसः इडप्रजसो मा नवीः मा नवीरिति मा नवीः सर्वा भवन्तो भवन्तु गृहे गृह स्थाम्भः अम्भोवः वो भक्षीय भक्षीयमहः महस्थ महोवः वोभक्षीय भक्षीरसः सहस्थ स्थसः सहोवः वो भक्षीयोर्जः ऊर्जस्थ स्थोर्जम् ऊर्जम्वः को भक्षीय भक्षीयरेवतीः रेवती रमध्वम् रमध्वमस्मिन् अस्मिन् लोके लोके अस्मिन् अस्मिन् गोष्ठे गोष्ठे एस्मिन् गोष्ठ इति गोष्ठे अस्मिन् क्षये क्षयेऽस्मिन् अस्मिन् योनोः योना यः इहैव एवस्त स्तेतः इतो मा, माप अपघात गातबह्वीः बह्वीर्मे मे भूयास्त भूयास्तसगंहिता सगंहितासि सगंहितेति संहिता असि विश्वरूपीः विश्वरूपीरा विश्वरूपीरिति विश्वरूपीः आमा मोर्जा मोर्जा विष विशा, विशा आगौपत्येन गौपत्येन आरायः राजस्पोषेण कोषेण सहस्रपोषम् सहस्रपोषम् वः सहस्रपोषमिति सहस्रापोषम् पुष्यासम् पुष्यासम् मयि मयि वः गोरायः राजश्रयन्ताम् श्रयन्तामिति श्रयन्ताम् उभक्त्वा त्वाग्ने अग्ने दिवेदिवे दिवेदिवे दोषावस्तः द्विवेदिभ इति दिवे दिवे दोषावस्तर्धिया दोषावस्तरिति दोषावस्तः धिया वयम् वयमिति वयम् नमो भरन्तः भरन्तः एमसि इमसीदीमसि राजन्तमध्वराणाम् अध्वराणाम् गोपाम् गोपामृतस्य गोपामिति गोपाम् ऋतस्य दीदिविम् दीदिविमिति दीदिविम् वर्धमानग्रस्वे स्वेदमे दमयति दमे समः नः सूनवेऽग्ने अग्ने सूपायनः सूपायनो भव सूपायन इति सूपायनः भवेदि भव स च स्वानः न स्वस्तये स्वस्तय इति स्वस्तये अग्ने त्वम् त्वं नः नो अन्तमः अन्तम त्राता शिवः शिवो भव भव भवरूध्य इति वरोध्यः त्वन्त्वा शोचिष्ठ देदिवः देदिव इति देदिवः सुम्नाय नूनम् नूनमीमहे मीमहे सखिभ्यः सखिभ्य इति सखीभ्यः वसुरग्निः अग्निर्वसुश्रवाः वसुश्रवा वसो इति वसोश्रवाः अच्छानक्षि नक्षिद्युमत्तमः द्युमत्तमो रयिम् द्युमत्तम इति द्युमत् दा रयिन्द्राः वः पश्यामि पश्याम्यूर्जा ऊर्जा मा पश्यत पश्यत रायः रायस्पोषेण पोषेण प्रायस्पोषेण पोषेण मा पश्यत पश्यतेडाः इडास्थ स्थ मधुकृतः मधुकृतस्योनाः मधुकृत मा मा विशतेराः इरामदः मद मदः सहस्रपोषम् वः सहस्रपोषमिति सहस्रापोषम् वः पुष्यासम् पुष्यासम् मयि मयि वः पोरायः प्रायश्रयन्ताम् तत्सवितुः सवितुर्वरेण्यम् भर्गो देवस्य देवस्य धीमहि धीमहिति धीमहि धी धियो धी यो नः न नह प्रचोदयात् प्रचोदयादिति प्राचोदयात् सोमानग्स्वर्णम् स्वर्णम् कृणुहि कृणुहि ब्रह्मणः ब्रह्मणस्पतेः अत इति पते कक्षीवन्तम् यः कक्षीवन्तमिति कक्षीवन्तम् कदाचन क्षणस्तरीः स्तरीरसि असि नेन्द्र इन्द्रषष्ठसि षष्ठसि दाशुष इति दाशुषे उपोपेत् उपोपेत्युप उप इन् नु मघवन् मघवन्भूयः मघवन्निति मघवन् भूय इत् इन् नुते दानम् देवस्य देवस्य पृच्छ्यते दे। पृच्छत इति पृच्यते परि त्वा अग्ने पुरम् पुरम् वयम् वयम् विप्रम् विप्रगम् सहस्य सहस्य धीमहि धीमहिति धीमहि धृषद्वर्णम् दिवेदिवे धृषद्वर्णमिति धृषवर्णम् द्विवेदिवे भेत्तारम् द्विवेदिभैति दिवे दिवे भेत्तारम् भङ्गुरावतः भङ्गुरावत इति भङ्गुरावतः अग्ने गृहपते गृहपते सुगृहपतिः गृहपत इति गृहापते सुगृहपतिरहम् रहा सुगृहपतिरिति सुगृहपतिः अहम् त्वया त्वया गृहपतिना गृहपतिना भूयासम् गृहपतिनेति गृहापतिना भूयासगम् सुगृहपतिः सुगृहपतिर्मया सुगृहपतिरिति सुगृहपतिः मया त्वम् त्वम् गृहपतिना गृहपतिना भूयाः गृहपतिनेति गृहापतिना भूयाशतम् शतकम् हिमाः हिमास्ता तामाशिषम् आशिषमा आशिषमित्याशिषम् आशासे श्वासे तन्तवे तन्तवे ज्योतिष्मदीम् ज्योतिष्मदीन्दाम् तामाशिषम् आशिषमा आशीशं, आशिषमित्याशिषम् आशासे श्वासेऽमुष्मै अमुष्मै ज्योतिष्मतीम् ज्योतिष्मदीमिति ज्योतिष्मतीम् अयज्ञो वा एषः एषयः योऽसाम असामो वपप्रयन्तः उपप्रयन्तो अध्वरम् उपप्रयङ्गैत्युपप्रयन्तः अध्वरमिति इत्याह आह स्तोमम् एवास्मै अस्मै नक्ति नक्त्युप उपेति इत्याह आह प्रजा प्रजा प्रजेति प्राजा वै पशवः उपेमम् इमम् लोकम् लोकम् प्रजाम् <PRAJAM, प्रजामेव ouais। प्रजामिति प्राजाम् एव पशून् पशूनिमम् इमल्लोकम् लोकमुप उपैति एत्यस्य अस्य प्रत्नाम् प्रत्नामनु अनुद्युतम् द्युतमिति इत्याह आह सुवर्गः सुवर्गो वै इति सुवः कः वै लोकः प्रत्नः प्रत्नः सुवर्गम् स्वर्गमिति सुवहागम् एव लोकम् लोकगुम् समारोहति समारोहत्यग्निः समारोहतीति समारोहति अग्निर्मूर्धा मूर्धा दिवः दिवः ककुत् कगुदिति इत्याह आहमूर्धानम् मूर्धानमेव एवैनम् येन कुम् समानानाम् समानानाम् करोति करोत्यसो अथो देवलोकात् अथो इत्यथो देवलोकादेव देवलोकादिति देवलोकात् एव मनुष्यलोके मनुष्यलोके प्रति मनुष्यलोक इति मनुष्यलोके प्रति तिष्ठति तिष्ठत्ययम् अयमिह इह प्रथमः प्रथमो धायि धायि धातृभिः धातृभिरिति धातृभिरिति धातृभिः इत्याह आहमुख्यम् मुख्यमेव एवैनम् एनम् करोति करोत्युभा उभा वा मामिन्द्राग्नी इन्द्राग्नी आहुवध्यै इन्द्राग्नी इति इन्द्राग्नी आहुवध्या इति इत्याह आहुजः ओजो बलम् बलमेव एवाव अवरुन्धे वृन्धेयम् अयन्ते ते योनिः योनिरृत्वियः ऋत्विज इति इत्याह आह पशवः पशवो वै वै रैः रयःपशून् पशूनेव एवाव अवरुन्धे वृन्धे षड्भिः षड्भिरुप षड्भिरिति षट्भिः उपतिष्ठते तिष्ठते षट् षड्वै वा एव प्रति प्रतिष्ठति तिष्ठति षड्भिः षड्भिरुत्तराभिः षड्भिरिति षड्भिः उत्तराभिरुप उत्तराभिरित्युत्तराभिः उपतिष्ठते तिष्ठते द्वादश द्वादशसम् सम्पद्यन्ते पद्यन्ते द्वादश द्वादशमासाः मासा संवत्सरः संवत्सरः संवत्सरे संवत्सर इति संवत्सरः संवत्सर एव संवत्सर इति संवत्सरे एव प्रति प्रतिष्ठति तिष्ठति यथा यथा वै वै पुरुषः पुरुषोऽश्वः अश्वो गौः गौर्जीर्यति जीर्यत्येवम् एवमग्निः अग्निराहितः आहितो जीर्यति आहित इत्याहितः जीर्यति संवत्सरस्य संवत्सरस्य परस्तात् संवत्सरस्येति संवत्सरस्य परस्तादाग्निभावमानीभिः आग्निभावमानीभिरुप आग्निभावमानीभिरित्याग्निवमानीभिः उपतिष्ठते तिष्ठते पुनर्नवम् पुनर्नवमेव पुनर्नवमिति पुनः नवम् एवैनम् एनमजरम् अजरम् करोति करोत्यथो अथो पुनादि अथो इत्यथो पुनात्येव एवोप उपतिष्ठते तिष्ठते योगः योग एवास्य अस्यैषः एष उप उपतिष्ठते दमः दम एवास्य अस्यैषः एष उप उपतिष्ठते तिष्ठते याच्ञा एवास्य अस्यैषा एषोप उपतिष्ठते तिष्ठते यथा यथा पापीयान् पापी याञ्छेयसे श्रेयस आहृत्य आहृत्य नमस्यति आहृत्येत्या आहृत्य नमस्यति तादृक् तादृगेव एव तत् तदायुर्दाः आयुर्दाग्ने आयुर्दा इत्यायोः अग्नेसि अस्यायोः आयुम्मे मे देहि देहीति देही इत्याह आहायुर्दाः आयुर्दाहि आयुर्दा इत्यायुहोदाः ह्येषः एष वर्चोदाः वर्चोदा अग्ने वर्चोदा इति वर्चहादाः अग्नेऽसि असि देहि देहिदि इत्याह आह वर्चोदाहि वर्चोदा इति वचहादाः ह्येषः एष तनूपाः तनूपा अग्ने तनूपा अग्नेसि असि तनुवम् तनुवम् मे इत्याह आह तनूपाः तनूपाहि तनूपा इति तनूपाः ह्येषः एषोऽग्नेः अग्नेयत् यन्मे मे तनुवाः तनुवा ओनम् ओनम् तन्मे पा आप्रण प्रणेति इत्याह आहयत् यन्मे मे प्रजायैः प्रजायै पशूनाम् प्रजाया इति प्राजायै पशूनामूनम् ऊनन्दत तन्मे मा आ आपूरय इति वाव वावैतत् हेतदाह आह चित्रावसो चित्रावसो स्वस्ति चित्रावसो इति चित्रावसोः स्वस्तिते ते पारम् पारमशीय अशीयेति इत्याह आह रात्रिः रात्रिर्वै वै चित्रावसुः चित्रावसुरव्युष्ट्यै चित्रावसुरिति चित्रावसुः अव्युष्ट्यै वै अव्युष्ट्या इत्यविष्ट्यै वा एतस्यै एतस्यै पुरा पुरा ब्राह्मणाः ब्राह्मणा अभेषुः अभेषुर्व्युष्टिम् व्युष्टिमेव व्युष्टिमिति वी उष्टिम् एवाव इन्धानास्त्वा त्वा शतम् शतकम् हिमानाः हिमा इति इत्याह आह शतायुः शतायुः पुरुषः शतायुरिति शता आयुः पुरुषः शतेन्द्रियः शता इन्द्रियः आयुष्येव देवेन्द्रिये इन्द्रिये प्रति प्रतिष्ठति तिष्ठतिषा एषा वै वै सूर्मी कर्णकावत्येतया कर्णकावतीति कर्णकावती एतयाः अस्मा वै देवाः देवासुराणाम् असुराणां शततर्हान् शततर्हागसृगृंहन्ति शततर्हानिति शतातर्हान् सृगृंहन्ति यत् यदेतया एतया समिधम् समिधमादधाति समिधमिति संविधम् आदधाति वज्रम् आदधातीत्यादधाति वज्रमेव एवैतत् एतच्छतघ्नी शतघ्नी यजमानः शतघ्नीमिति शताघ्नी यजमानो भ्रातृव्याय भ्रातृव्याय प्रा प्रहरति हरतिस्तृत्यैस्तृत्या असम्वट्कारम् असंवट्कारपुंसम् असम्वट्कारमित्यसम्वट्कारम् सन् त्वम् त्वमग्ने अग्ने सूर्यस्य सूर्यस्य वर्चसा वर्चसागथाः अगथा इति इत्याह आहैतत् एतत्त्वम् त्वमसि असीदम् इदमहम् अहम् भोयासम् भूयासमिति इति वाव एतदाह आहत्वम् त्वमग्ने अग्ने सूर्यवर्चाः सूर्यवर्चासि सूर्यवर्चा इति सूर्यवर्चाः असीति इत्याह आशिषम् आशिषमित्या, आशिषमेव आशिषमित्याशिषम् एवैताम् एता मा आशास्ते शास्त इति पश्यामि प्रजाः प्रजा अहम् प्रजा इति प्राजाः अहमिति इत्याह आह यावन्त एव ग्राम्याः ग्राम्याः पशवः अशवस्तान् तानेव एवा अवरुन्धे रुन्धेऽम्भः अम्भस्थ स्थाम्भः अम्भोगः वो भक्षीया भक्षीयेति इत्याह आहाम्भः अम्भोहि ह्येताः एतामहः महस्थ स्थमहः महोवः वो भक्षीय भक्षीयेति इत्याह आहमहः महोहि ह्येताः एताः सहः सहस्थ स्थसहः सहो वः ओभक्षीय इत्याह आहसहः सहो हि एता ऊर्जः ऊर्जस्थ स्थोर्जम् ऊर्जम् वः भक्षीयेदि इत्याह आहोर्जः ऊर्जो हि ह्येताः एतारेवतीः रेवतीरमध्वम् रमध्वमिति इत्याह आह पशवः पशवो वै वै रेवतीः रेवतीः पशून् पशूनेव एवात्मन् आत्मन् रमयते रमयत इह इहैवस्ततः इतो माप अपघात घातेति इत्याह आहध्रुवाः ध्रुवा एवैनाः येनानपगाः अनपगाः कुरुते अनपघा इत्यनपगाः इष्टकचित् इष्टकचिद्वै इष्टकचिदिति इष्ट वा अन्यः अन्योऽग्निः अग्निः कशुचित् कषुचिदन्यः कषुचिदिति पशुचित् अन्यः सगुंहिता सगुंहितासि सर्गंहितेति संहिता असि विश्वरूपीः विश्वरूपीरिति इति वत्सम् वत्समभि अभिमृषति मृषत्युप उपैव हे वैनम् एनम् शुचितम् पशुचितमेनम् पशुचितमिति प्रशोचितम् एनम् कुरुतेः कुरुते प्र वै वा एषः एषोऽस्माद् अस्माल्लोकात् लोकाच्च्यवते श्यवते यः याहवनीयम् आहवनीयमुपतिष्ठते आहवनीयमित्याहवनीयम् उपतिष्ठते गार्हवत्यम् गारहवत्यमिति गारः पत्यम् उपतिष्ठते तिष्ठतेऽस्मिन् अस्मिन्नेव एव लोके लोके प्रति प्रतिष्ठति तिष्ठत्यथो अथो गार्हवत्याय अथो इत्यथो गार्हवत्यायैव गार्हवत्यायेदि गार्हवत्याय एव निन्धुते नते गायत्रीभिः गायत्रीभिमुप उपतिष्ठते तिष्ठते तेजः तेजो वै वै गायत्री गायत्री तेजः तेज एव एवास्मन् आत्मन् धत्ते धत्तेऽथो अथो यत् अथो इत्यथो यदेतम् एतम् तृशम् तृशमन्वाः अन्वाः सन्तत्यै हन्वाहेत्यनो आह सन्तत्यैगार्हपत्यम् सन्तत्या इति संवृत्ति गार्हपत्यम् वै गार्हवत्यमिति गार्हपत्यम् वा नो अनुद्विपादः द्विपादो वीराः त्रिपाद वीराः प्रजायन्ते जायन्ते यः एवम् एवम् विद्वान् विद्वान् द्विपदाभिः द्विपदाभिर्गार्हपत्यम् द्विपदाभिरिति द्वीपदाभिः गार्हपत्यमुपतिष्ठते गारः पत्यमिति गारः पत्यम् उपतिष्ठता उपतिष्ठत इत्युपातिष्ठते आस्य अस्य वीरः वीरो जायते ऊर्जा ऊर्जावः वः पश्यामि पश्याम्यूर्जा ऊर्जा मा मा पश्यत पश्यतेति इत्याह आशिषम् आशिषमेव आशिषमित्याशिषम् एवैता एतामा आशास्ते शास्ते तत् तत्सविदुः सविदुर्वरेण्यम् वरेण्यमिति इत्याह आह प्रसूत्यै प्रसूत्यै सोमानम् प्रसूत्या इति प्रासूच्यै सोमानग्रस्वरणम् स्वरणमिति इत्याह आह सोमपीथम् सोमपीथमेव सोमपीथमिति सोमापीथम् एवव अवरुन्धे रुन्धे कृणुहि कृणुहि ब्रह्मणः ब्रह्मणस्पतेः अत इति इत्याह आह ब्रह्मवर्चसम् ब्रह्मवर्चसमेव ब्रह्मवर्चसमिति ब्रह्मवर्चसम् एवाव अवरुन्धे रुन्धे कदा कदाचन च न स्तरीः स्तरीरसि असीति इत्याह आह न स्तरीम् स्तरीम् रात्रिम् रात्रिम् वसति वसति ेवम् एवम् विद्वान् विद्वानग्निम् अग्निमुपतिष्ठते उपतिष्ठते परि उपतिष्ठत इत्युपातिष्ठते परि त्वाग्नेः अग्ने पुरम् पुरम् इत्याह आह परिधिमेव परिधिमिति परिधिम् एवैतम् परि परिदधाति दधात्यस्कन्दाय अस्कन्धायाग्नेः अग्ने ग्रहपते ग्रहपत इति गृहपत इति ग्रहपतेः इत्याह आह यथा यजुः यथा यजुरेव यथा यजुरिति यथा यजुः एवैतत् एतच्छतम् शतकम् हिमाः हिमा इति इत्याह आह शतम् शतम् त्वाः त्वाहे मन्तान् हे मन्तानिधिषीय इन्धिषीयेति इति वाव वावैतत् एतदाह आह पुत्रस्य पुत्रस्य नाम नाम गृह्णादि अन्नादमेव अन्नादमित्यन्ना अदम् एवैनम् करोति करोति तामाशिषम् आशिषमा आशिषमित्याशिषम् आशासे शासे तण्डवे तण्डवे ज्योतिष्मतीम् ज्योतिष्मतीमिति इति ब्रूयात् ब्रूजाद्यस्य यस्य पुत्रः पुत्रो जातः अजातः स्यात् स्यात् तेजस्वी तेजस्वेव देवास्य अस्य ब्रह्मवर्चसी ब्रह्मवर्चसी पुत्रः ब्रह्मवर्चसीति ब्रह्म वर्चसी पुत्रो जायते जायते ताम् तामाशिषम् आशिषमा आशिषमित्याशिषम् आशासे शासेमुष्मै अमुष्मै ज्योतिष्मतीम् ज्योतिष्मतीमिति इति ब्रूजात् ब्रूजाद्यस्य यस्य पुत्रः पुत्रो जातः स्यात् स्यात्तेजः तेज एव ते एवास्मिन् अस्मिन्ब्रह्मवर्चसम् ब्रह्मवर्चसम् दधाति ब्रह्मवर्चसमिति ब्रह्मवर्चसम् दधातीति दधाति अग्निहोत्रम् जहोति अग्निहोत्रमित्यग्निहोत्रम् जहोति यत् यदेव एव किम् किञ्च यजमानस्य यजमानस्य स्वम् स्वन्तस्य तस्यैव एव तत् तद्रेतः प्रजनने प्रजनने प्रजननम् प्रजननयतिप्राजनने प्रजननग्नि प्रजननमिति प्राजनम् हि वै वा अग्निः अग्निरथा अथौषधीः ओषधीरन्तगताः अन्तगता दहति अन्तगता इत्यन्तगताः दहति ताः तास्ततः ततो भूयसीः भूयसीःप्रजायन्ते जायन्ते यत् यत्सायम् सायम् जुहोति जुहोधिरेतः प्रेत एव तत् तत्सिञ्चति सिञ्चति प्र प्रयीव एव प्रातस्थलेन प्रातस्तलेन जनयति प्रातस्तनेनेति प्रातः तनेन जनयति तत् तद्रेतः रेतस्सिक्तम् सिक्तम् न त्वष्ट्रा त्वष्ट्राविकृतम् अविकृतम् प्र अविकृतमित्यविकृतम् प्रजायते जायते यावच्छः यावच्छो वै यावच्छ इति यावत् सः वै रेतसः सिक्तस्य सिक्तस्य त्वष्टाः त्वष्टारूपाणि रूपाणि विकरोति विकरोति तावच्छः विकरोतीति विकरोति तावच्छो वै तावच्छ इति तावत् सः वै तत् तत्र विजायते जायत एषः एष वै वै दैव्यः दैव्यस्तष्टाः कृष्टायः यो यजते यजते बह्वीभिः बह्वीभिरुप उपतिष्ठते तिष्ठते रेतसः रेतस एव सिक्तस्य सिक्तस्य बहुशः बहुशोरूपाणि बहुश इति बहुषः रूपाणि विकरोति करोति सः सप्र प्रैव एव जायते जायते श्वश्वः श्वश्व भूयान् श्वश्व श्वः श्वः भूयान् भवति भवति यः यदेवम् एवम् विद्वान् विद्वानग्निम् अग्निमुपतिष्ठते उपतिष्ठदेहः उपतिष्ठत इत्युपातिष्ठते अहर्देवानाम् देवानामासीर आसीद्रात्रिः रात्रिरसुराणाम् असुराणान्ते तेऽसुराः असुरा यत् यद्देवानाम् देवानाम् वित्तम् वित्तम् वेद्यम् वेद्यमासीत् आसीत् तेन तेन सह सह रात्रिम् रात्रिम् हीना अमन्यन्त अमन्यन्तते ते पश्यन् अपश्यन्नाग्नेयी आग्नेयी रात्रिः रात्रिराग्नेयाः आग्नेयाः पशवः पशव इमम् इममेव एवाग्निम् अग्निग्रस्तवाम स्तवामसः स नः न स्तुतः सुतः पशून् पशून्पुनः पुनर्दास्यति दास्यतीति ते इमं, वा, तेनिम् अग्निमस्तुवन् अस्तुवन् सः स एभ्यः एभ्य स्तुतः स्तुतो रात्र्याः रात्र्याधि अध्यहः अहरभि अभिपशोन् पशून्निः आर्जत्ते ते देवाः देवाः पशून् पशोन् वित्वा पशोन, वित्त्वा कामान् कामानुम् अकुर्वत अकुर्वतयः एवम् विद्वान् विद्वानग्निम् अग्निमुपतिष्ठते उपतिष्ठते पशुमान् उपतिष्ठत इत्युपातिष्ठते पशुमान् भवति पशुमानिति पशुमान् भवत्यादित्यः आदित्यो वै अस्मात् अस्माल्लोकात् अम लोकादमुम् अमुल्लोकम् लोकमैर् ऐत्सः सोमम् अमुल्लोकम् लोकम् गत्वा गत्वा पुनः पुनरिमम् इमम् लोकम् लोकमभि अभ्यध्यायत् अध्या अध्यायत्सः स इमम् इमम् लोकम् लोकमागत्य आगत्य मृत्योः आगत्येत्यागत्य मृत्योरबिभेत् अभिभेन्मृत्युसंयुतः मृत्युसंयुत इव मृत्युसंयुत इति मृत्यो संयुतः इव हि ह्ययम् अयम् लोकः लोकः सः सोऽमन्यत इममेव एवाग्निम् अग्निग्रस्तवानि स्तवानि सः समाः मा स्तुतः सुदः सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति एवम् विद्वान् विद्वानग्निम् अग्निमुपतिष्ठते उपतिष्ठते सुवर्गम् उपतिष्ठत इत्युपातिष्ठते स्वर्गमेव स्वर्गमिति सुवहागम् लोकमेति एति सर्वम् सर्वमायुः आयुरेति एत्यभि अभिवै वा एषः एषोग्नी अग्नी आ अग्नी इत्यग्नी आरोहति रोहति रो यः ेनौ एनाुपतिष्ठते उपतिष्ठते यथा उपतिष्ठत इत्युपातिष्ठते यथा खलु खलु वै वयि श्रेयान् श्रेयानभ्यारूढः अभ्यारूढः कामयते अभ्यारूढ इत्यभि आरुढः कामयते तथा तथा करोति करोति नक्तम् नक्तमुप उपतिष्ठते तिष्ठतेन न प्रातः सगुंहिनक्तम् व्रतानि व्रतानि सृज्यन्ते सृज्यन्ते सः सह, सहश्रेयान् श्रेयागिश्च श्रे च पापीयान् पापीयागिश्च चासाथे आसाथे ज्योतिः आसाथे इत्यासादे ज्योतिर्वै वा अग्निः अग्निस्तमः तमो रात्रिः अनुत्तमुपतिष्ठते उपतिष्ठते ज्योतिष उपतिष्ठत इत्युपातिष्ठते ज्योतिषैव देवतमः तमस्तरदि तरत्युपस्थेयः उपस्थेयोग्नी उपस्थेय इत्युपास्थेयः अग्नी उपस्थेया उपस्थेया इत्युपस्थेयाहोः आहुर्मनुष्याय मनुष्यायेत् इन्न न्वयि वैयः यो हरः अहरहराहृत्य अहरहरित्यहः अह आहृत्या आहृत्येत्या आहृत्य अथैनम् येन याचति याचति सः स इद् इन्नो न्वै वैतम् तमुप तं, उपाच्छति पृच्छत्यथ अर्थकः को देवान् देवानहरहः हा, अहरहरियाचिष्यति अहरहरित्यहहाह राजिष्यतीति तस्मात् तस्मान्न नोपस्थेयः उपस्थेयोथो उपस्थेय इत्युपास्थेयः अथो खलु अथो इत्यथो खल्वाहुः आहुराशिषे आशिषे वै आशिष इत्याशिषे वै कम् कञयजमानः यजमानो यजते यजत इति इत्येषा एषा खलु खलु वै वा आहिलाग्नेः आहिलाग्ने राशीः आहिताग्नेरित्याहिताग्नेः आशीर्यत् आशीरित्याशीः यदग्निम् अग्निमुपतिष्ठते उपतिष्ठते तस्मात् उपतिष्ठत इत्युपातिष्ठते तस्मादुपस्थेयः उपस्थेयः प्रजापतिः उपस्थेय इत्युपा स्थेयः प्रजापतिः प्रचोर प्रजापतिरिति प्रजापतिः पशो न सृजत असृजतते ते सृष्टाः सृष्टाहोरात्रे अहोरात्रे प्र अहोरात्रे इत्यहह रात्रे प्राविशन् अविशन्तान् तान् छन्दोभिः छन्दोभिर्नु छन्दोभिरिति छन्दहाभिः अन्वविन्दत् अविन्दद्यद् यच्छन्दोभिः छन्दोभिरुपतिष्ठते छन्दोभिरिति छन्दःभिः उपतिष्ठते स्वम् उपतिष्ठदैत्युपातिष्ठते स्वमेव एव तत् तदनु अन्विच्छति इच्छति न तत्र तत्र जामि जाम्यस्ति अस्तीति इत्याहुः आहुर्यः यो हरहः अहरहरुपतिष्ठते अहरहरित्यहः अहः उपतिष्ठत इति उपतिष्ठदैत्युपातिष्ठते इति यः यो वै अग्निम् अग्निम् प्रत्यङ् प्रत्यङ्गुपतिष्ठते उपतिष्ठते प्रति उपतिष्ठत इत्युपातिष्ठते प्रत्येनम् येन मोशति ओषधि यः इराङ् पराङ्गम् प्रजया प्रजया पशुभिः प्रजयेति प्राजया पशुभिरेति पशुभिरिति पशुभिः एति कवातिर्यङ् कवातिर्यिव कवातिर्यिति कवातिर्यङ् इवोप उपतिष्ठेत तिष्ठेतना नैनम् एनम् प्रत्योषधि प्रत्योषधिना प्रत्योषतीति प्रति ओषधि अविष्वङ् विश्वङ्प्रजया प्रजया पशुभिः प्रजयेति प्राजया पशुभिरेति पशुभिरिति पशुभिः एतीत्येति मम नाम नाम प्रथमम् प्रथमम् जातवेदः जातवेदः पिता जातवेद वेदः पिता माता माता च दधतुः दधतुर्यत् यदग्रेः अग्रैत्यग्रेः तत्त्वम् त्वम् बिभ्रुहि विभ्रयुनः पुनरा नाम तदैतोः एयतोस्तव एतोरित्या हेतोः तवाहम् अहम् नाम नाम विभराणि विभराण्यग्नेः मम नाम नाम तव तव च जातवेदः जातवेदो वाससी जातवेद इति जातावेदः वाससी इव वाससी इति वाससी इव विवसानो विवसानो ये विवसानामिति विवसानो ये चरावः ये इति ये चराव इति चरावः आयुषे त्वम् त्वम् जीवसे जीवसे वयम् अयम् यथा यथायसमिति यथायसम् इति परि परि दधावहै दधावहै पुनः पुनस्ते ते इति ते प्रतिविद्धाय अप्रतिविद्धाय नमः अप्रतिविद्धायेत्यप्रतिविद्धाय नमोऽनाधृष्टाय अनाधृष्टाय नमः अनाधृष्टायेत्यनाधृष्टाय नमः सम्राजे इति सम्राजे अषाढो अग्निः अग्निर्बृहद्वयाः बृहद्वया विश्वजिद् बृहद्वया इति बृहदेवयाः विश्वजित्सहन्त्यः विश्वजिदिति विश्वजित् सहन्त्यश्रेष्ठः श्रेष्ठो गन्धर्वः गन्धर्व त्वत्पितारो अग्ने त्वत्पितार इति त्वदे वितारः अग्ने देवाः देवास्त्वामाहुदयः त्वद्विवाचना इति त्वद्विवाचनाः सम् माम् मामायुषा आयुषा सुहिते सुहिते मा सुहितैति धा इति धाः अयमग्निः अग्निः श्रेष्ठतमः श्रेष्ठतमोऽयम् श्रेष्ठतमैति श्रेष्ठतमः अयम् भगवत्तमः भगवत्तमोऽयम् भगवत्तमैति भगवतमः अयगम् सहस्रसादमः सहस्रसादमैति सहस्रसादमः अस्मास्तु अस्तु सुवीर्यम् सुवीर्यमिति सो वीर्यम् मनो ज्योतिः ज्योतिर्जुषताम् जुषतामाज्यम् आज्यम् विच्छिन्नम् विच्छिन्न यज्ञम् विच्छिन्नमिति विच्छिन्नम् यज्ञपुंसम् समिमम् इमम् दधातु विष्पाक्षसः विषसो निम्रुचः निम्रुचश्च निमृच इति निमृजः शताः ताः सम् सन्दधामि दधामि हविषाः हविषा घृतेन घृतेनेति घृतेन पयस्वतीरोषधयः ओषधयः पयस्वत् पयस्वद्वीरुधाम् वीरुधाम्बयः पय इति पयः अपाम्बयसः पयसो पयस्तेन तेन माम् मामिन्द्र इन्द्रसम् सकंसृज सृजेति सृज अग्ने व्रतपते व्रतपते व्रतम् व्रतपत व्रतम् चरिष्यामि चरिष्यामि तत् तच्छकेयम् शकेहम् तत् तन्मे मे राध्यताम् राध्यतामिति राध्यताम् अग्निगुम्होतारम् होतारमिह होता इह तम् तबुम्भुवे भुवे देवान् देवान् यज्ञियान् यज्ञानिह इह यान् हवामहे हवामहे आयन्तु यन्तु देवाः देवाः सुमनस्यमानाः सुमनस्यमाना वियन्तु सुमनस्यमाना इति सो मनस्यमानाः देवाः देवा हविषः हविषो मे मे अस्य अस्येत्यस्य त्वायनक्ति विनक्ति सह सत्त्वायनक्तो विनक्तु यानि यानि घर्मे घर्मे कपालानि कपालान्युपचिन्वन्ति उपचिन्वन्ति वेधसः उपचिन्वन्तित्युपाचिन्वन्ति वेधस इति वेधसः पूष्णस्तानि तान्यपि अपिव्रते व्रत इन्द्रवायु इन्द्रवायू इति इन्द्रवायू विमुञ्चताम् मुञ्चतामिति मुञ्चताम् अभिन्नो घर्मः घर्मो जीरदानुः जीरदानुर्य जीरदानुरिति जीरादानुः यद आर्तः आर्तस्तत् तदगन् अगम् पुनः पुनरिति पुनः परिधयश्च परिधय परिधयः स सर्वे यज्ञस्य यज्ञस्यायोः आयुरणो अनुसम् सञ्चरन्ति चरन्तीति चरन्ते त्रयस्त्रिघुंसत्तन्तवः त्रयस्त्रिघुंसदिति त्रयः त्रिगुंसत् तन्तवो ये ये विदत्मिले विदद्मिरे ये विदत्मिल इति विदद्दिरे य इमम् इमम् यज्ञम् यज्ञगस्वधया स्वधया ददन्ते स्वधयेति प्रति प्रत्येतत् एतद्दधामि दधामि स्वाहा स्वाहा घर्मः धर्मो देवान् देवागुम् अपि अप्येतोेतो वैश्वानरो नः ऊत्या ऊत्याप्र आप्रयातो यातु परावतः परावत परावतः अग्निरुक्थेन रुक्थेन वाहसा वाहसे दिवाहसा कृतावानम् वैश्वानरम् वृतावानमित्यतावानम् वैश्वानलमृतस्य कृतस्य ज्योतिषः ज्योतिषस्पतिम् पतिमितिपतिम् अजस्रम् घर्मम् घर्ममीमहे मीमह इतीमहे वैश्वानरस्य लघुंसनाभ्यः लघुंसनाभ्यो बृहद् बृहदरिणाद् अरिणादेकः एकस्वपस्यया स्वपस्य यातिषि स्वपस्य एति सो अपस्यया कविरिति कविः मुखाभितरा इतरा महयन् महयन्नजायत अजायताग्निः अग्निर्द्यावापृथिवी द्यावापृथिवी भूरिरेतसा द्यावापृथिवी दि द्यावाः पृथिवी भूरिरेतसे दि भूरिरेतसाः पृष्टो दिवि दिवि पृष्टः पृष्टो अग्निः अग्निः पृथिव्याम् पृथिव्याम् पृष्टः पृष्टो विश्वाः विश्वा ओषधीः ओषधीरा आविवेश विवेशेति विवेश वैश्वानरः सहसा सहसा पृष्टः पृष्टो अग्निः अग्निः सह स नः निवासः स रिषः रिषः पातु पातु यदग्ने अग्ने भुवना भुवना व्यख्यः यख्यः पशुम् यख्य इति अख्यः पशुम् गोपा इति गोपाः यल्यः परिज्ञमा वैश्वानरब्रह्मणे ब्रह्मणे विन्द विन्द गातुम् गातुम् यूयम् पादस्वस्तिभिः स्वस्तिभिः सदा स्वस्तिभिरति स्वस्तिभिः सदा नः नैतिनः त्वमग्ने अग्ने शोचिषा शोचिषा रोदसी अवृणाः रोदसी इति रोदसी वरुणाजायमानः जायमान इति जायमानः तम् देवान् देवाकम् अभिशस्तेः अभिशस्तेरमुञ्चः अभिशस्तेरित्यभिशस्तेः अमुञ्चो वैश्वानर वैश्वानरजातवेदः जातवेदो महित्वा जातवेद जातावेदः महित्वेति महीत्वा अस्माकमग्ने अग्ने मघवत्सो मघवत्सु धारय मघवत्स्विति मघवत् सु धारयानामि अनामि क्षत्रम् क्षत्रमजरम् अजरघुम् सुवीर्यम् सुवीर्यमिति सोवीर्यम् वयम् जयेम जयेम शतिनम् शतिरघुम् सहस्रिणम् सहस्रिणम् वैश्वानर वैश्वानरवाजुम् वाजमग्ने अग्ने तव तवोतिभिः वैश्वानरस्य सुमतौ सुमतौ सुमता स्याम सुमताविधिसुमतौ स्याम राजा राजाहिकम् कम, हिकम् भुवनानाम् भुवनानामभिश्रीः अभिश्रीत्यभि अभिश्री हितो जातः जातो विश्वम् विश्वमिदम् इदम् विचष्टे चष्टे वैश्वानरः वैश्वानरो यतते यतते सूर्येण सूर्येण सूर्येण अभते ते, ते एडो वरुण वरुण नमोभिः नमोभिरव नमोभिरिति नमःभिः अवयज्ञेभिः यज्ञेभिरीमहे एमहे हविर्भिः हविर्भिरिति हविःभिः क्षयम् अस्मभ्यम् अस्मभ्यमसुर अस्मभ्यमित्यस्माभ्यम् असुरप्रचेतः प्रचेतो राजन् प्रचेत इति प्राचेतः राजन्नेनागुंसि शिश्रथः शिश्रथः कृतानि कृतानीति कृतानि उदुत्तमम् उत्तमम् वरुण उत्तममित्युदत्तमम् वरुणपाशम् पाशमस्मद् अस्मदव अवाधमम् अधमम् विमध्यमम् मध्यमग्रश्रथाय श्रधाथाये दिश्रथाय अथाभयम् अयमादित्य आदित्यव्रते व्रते तव तवानागसः अनागसो अदितये अदितये श्याम श्यामेदि स्याम अधिक्रावण्णो अधिक्रावण्ण इति दधिक्रावण्णः अरारिषण्ष्णाः विष्णारश्वस्य अश्वस्य वाजिनः वाजिन इति वाजिनः सुरभिनः न मुखाः मुखाकरत् करत्र प्रणः नायोगुंषि आयोगुंषि तारिषत् तारिषदिति तारिषत् आदधिक्राः अधिक्राः शवसा शभिक्रा इति दधिक्राः दृष्टेः सूर्यः सूर्य इव इव ज्योतिषा ज्योतिषापः अपस्ततान ततानेति ततान सहस्रसा शतसाः सहस्रसा इति सहस्राः शतसा वाजी शतसा इति शतसाः वाज्यर्वा अर्वा प्रणक्तो प्रणक्तो मध्वाः मध्वासम् समिमा सम इमा वचांसि वचागुंसीति वचांसि अर्ण्यर्मोर्धा मूर्धा भुवः भुव इति भुवः मरुतो यत् यद्धा हवः वो दिवः दिवः सुम् नायन्तः हवामहे इति हवा हवामहे आतु तूनः न उप उपगन्दन यावः वशर्म शर्मशमानाय शशमानाय सन्ति सन्धि त्रिधातूनि दाशुषे त्रिधातूनीति त्रिधातूनि दाशुषे यच्छत यच्छताधि अधीत्यधि अस्मभ्यम् तानि अस्मभ्यमित्यस्माभ्यम् तानि मरुतः मरुतो वियन्ता यन्तरयिम् प्रयिण्णः नो धत्ता वृषणः सुवीरम् सुवीरमिति सोऽ वीरम् अधिकर्मः न वृष्यतु वृष्यत्वदितिः अदिः शर्म शर्म यच्छतु यच्छत्विति महीमो पूरुषो सुमातरम् मातरकम् सुभ्रतानाम् सुम्रताना, सुव्रतानाम् ऋतस्य सुव्रतानामिति सो व्रतानाम् ऋतस्य पत्नीमवसे अवसे हुवेम हुवेमेति हुवेम तुविक्षत्रामजलन्तीम् तुविक्षत्रामिति तुवि क्षत्राम् अजरन्तीमुचीम् रुचीगुम् सुषर्माणम् सुषर्माणमदितिम् सुशर्माणमिति सोऽशर्माणम् अदितिगुम् सुप्रणीतिम् सुप्रणीतिमिति सोप्रणीतिम् सुत्रामाणम् पृथिवीम् सुत्रामाणमिति सोत्रामाणम् पृथिवीङ्गाम् रामनेहसम् अनेहसलम् सुशर्माणम् सुशर्माणमदितिम् सुशर्माणमिति सो शर्माणम् अदितिगम् सुप्रणीतिम् सुप्रणीतिमिति सो प्रणीतिम् दैवीम् नावम् नावग्रस्वरित्रामनागसम् स्वरित्रामिति सो अरित्रा अनागसमस्रवन्तीम् अस्रवन्ती मा आरुहेम रुहेमास्वस्तये स्वस्तय इति स्वस्तये इमागम्सो सुनावम् आरुहम् अरुहकुंशतारित्रा शतारित्राकुंशतस्भ्याम् शतारित्रामिति शता हरित्राम् शता शतस्भ्यामिति शतास्भ्याम् अच्छिद्राम् वारयिष्णुम् पारयिष्णुमिति पारयिष्णुम् ओ प्रथमकाण्डे पञ्चमः प्रश्नः समाप्तः